ीसिताम्रसतिनिन्दितशारथिन्दूयत्रैकतो विलसितांसिताङ्गशोभां वृन्दावनेऽपि कृतया मुनगाङ्गसङ्गं राधा मुकुन्दयुगलं तदहं नमामि कस्तूरी तिलकं ललाटपटले वक्षस्थले कौसुभं नासाग्रीवरमौक्तिकं करतले करे कङ्कणम् सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावली गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः अस्ति स्वस्तरुणैकराग्रविगलत्कल्पप्रसूनाप्लुतं वस्तु प्रस्तुतवेणुनादुलहरिनिर्वाणनिर्व्याकुलं स्रस्तश्रस्तनिबद्धनिर्विविलसद्गोपीसहस्रावृतम् हस्तन्यस्तपतापवर्गमखिलोदारं कुशोराकृते ज्यो लीलास्य संलग्नो गतो लोलोऽपि लोलतां तं लीलावपुषं बालं वन्दे लीलार्थसिद्धये सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रयविनाशाय श्रीकृष्णाय नमः ारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमतीरये वासुदेवपरा वेदा वासुदेवपरामुखाः दासुदेवपरायोगा वासुदेवपराक्रिया दासुदेवपरं वासुदेव वासुदेवपरं दासुदेव परो धर्मो वासुदेवपरा गतिः भगवान भगवान् की लीलाओं का वर्णन् श्रीशो खट्वांगाद खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात् पृशुस्रवा अजस्ततो महाराज महाराजस्तस्माद् भवत। तस्यापि भगवारेष साक्षाद्ब्रह्ममयो हरिः अंशांशेन चतुर्धाकात्पुत्रत्वं प्रार्थितसुरैः रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया तस्यानुचरितं राजन् ऋषिभिस्तद्वदर्शिभिः श्रुतं हि वर्णितं धूरी त्वया सीतापतिर्मुहुरु गुर्वर्थे त्यक्तराज्यो व्यचरन्ननुगुणम् पद्मपद्भ्यां प्रियाया पाणिस्पर्शाक्षमाभ्यां मृजितं पथरुजो यो हरिन्द्रानुजाभ्यां वैरूप्या शूर्पणख्याः प्रियविरहरुषा आरोपितभ्रुवि दृम्भ त्रस्ताब्धिबद्ध सेतुः खलं विश्वामित्राध्वरे येन मारिचाद्यानिसाचरा पश्यतु लक्ष्मणस्यैव हता नैरेद्यपुङ्गवा यो लोकवीरसमितौ धनुरैसमुग्रं सीता स्वयंवरगृहे दृशतोपनीतम् सञ्जीकृतं नृपक्विकृष्यबभञ्जमध्ये जिद्वानरूपगुणशीलभयोऽङ्गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानां मार्गे व्रजं भृगुपतेव्यनयत्प्ररूढं दर्पं महिमकृतं यस्तिराजबीजाम् य सत्यपाशपरिवीतपितुर्निदेशं शैणस्य चापि शिरसा जगृहेशभार्यः राज्यं श्रियं प्रणयेन श्रहृदो निवासं त्यक्त्वा यौवनमनूनिव मुक्तसङ्गः रक्षस्व सुरिव्यकृतिं रूपमशुद्धबुद्धे तस्या खरत्रिः श्रीरदूषणमुख्यबन्धून् जग्ने चतुर्दशसहस्रमपाय कोदण्डपाणिरतमान उवाचकिस्रं सीताकथाश्रवणदीपितहृच्छदेन सिष्टं विलोकनिपते दशकन्धरेण जग्नेऽद्भुतयुण ना वपुषाश्रमतोपकृष्टो नारी चमाशुभिशिखेन यथा कमुग्रह समक्षम् अलक्षोधमेन वृकवद्विपिने समक्षं वैदेहराजदुहितर्यपयापितायां भ्रात्रा वने कृपणवत् प्रिया वियुक्तः श्रीसङ्गिनां गतिमिते प्रथयश्च चार दग्ध्वात्मकृत्य हतकृत्यमहन् सख्यं विधाय कपिभिर्दयिता गतिं तैः बुद्ध्वाथ पारिनिहते प्लवगेन्द्रसैन्यैवेलामगा स मनुजो जां भवार्चिताङ्घ्री यद्रोसविभ्रमविवृत्तकटाक्षपात् सम्भ्रान्तनक्रमकरो भयगीर्णघोषः न्धुं स्थिरस्य रहणं परिगृह्यरूपी पादारमिन्दमुपगम्य बभासयेतत् न त्वां वयं जडधियोनुविदामभूमन् कूटस्थमादिपुरुषं जगतामधीशं यः सत्वतः सुरगणारजस प्रजेशा मन्यो स भूतपतय स भवान् गुणेशः कामं प्रयाहि जहि विश्रवशोवमेहं त्रैलोक्यरावणममाप्नुहितु वीरपत्नीं बध्नी सेतुमिह ते यशतो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्यभूपाः बद्धोदं दधौ रघुपतिर्विविधाद्रिकूटैः ेतुं कपीन्द्रकरकं पितभूरुहाङ्गैः सुग्रीवनीलहनुमत्प्रमुखैरनीकैलङ्कां विभीषणदिशा विशदग्रदग्धां सा वा निर्भज्यमानधिषणध्वजभेम कुम्भ सिङ्गाटकाराजकुले हि हृदिर्णीव घूर्णां रक्षपतिस्तदवलोक्यनिकुम्भकुम्भ धक्षदुर्मुखसुरान्तनरान्तकादिं पुत्रं प्रहस्तमतिकायविकम्पनादिम् सर्वानुगान्समहीनोदथ कुम्भकर्णं तां जातु धानप्रतनामशिशूलचापत्रासष्टिशक्तिसतृं सरतोमरखड्गदुर्गां सुग्रीवलक्ष्मणमरुसुतगन्धमाद नीलाङ्गदर्शपनसादिभिरन्वितो गा तेनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वम्बरूतमिभुपत्तिरथा सुयोधैः जग्धुर्तुमै गिरिगते सुभिरङ्गदाद्याः सीताभिमरसहत मङ्गलरावणेतान् रक्षपतिष्वबलनष्टिं नवेक्षरुष्ट आरुह्ययानकुमथाभिसमार रामम् चन्दनेजुमतिमातलिनोपनीते दिभ्राजमानमहनन्निशिते क्षुरप्रैहम् रामस्तमाः पुरसादपुरीशयन्नः कान्ता समक्षमसन्मशता पठिता स्वसं सवत् ते तक् त्यक्तत्र परस्पस्य फलमद्य जुगुप्सितस्य गच्छामि कालैव कर्तुर्लङ्घ्यवीर्यः देवं क्षिपन्धनुषि सन्धितमुत्सजर्ज बाणं सभज्रमिव तद्धृदयं बिभेद सोऽसिंहमन्दशमुखैर्ण्यपतद्भिमानां ध्याहेति जल्पतिजनेषुकृतिव रिक्तः तनोन्ततो निष्क्रम्य लङ्काया या तु धान्यसहस्रशः मन्दोदर्यासमं तस्मिन् प्रदुदत्य उपाद्रवन् स्वान् स्वान् बन्धून् परिसृज्य लक्ष्मणेषुभिरर्जितान् रुदोषु स्वरं दीनाघ्नन्त्य आत्मानमात्मना आहता स्म नाथ लोकरावण रावण गम्यायाचरणं लङ्का त्वद्भिः न नैवं वेदमहाभाग भवान् कामवशं गतः तेजोऽनुभावं सीताया येन नीतो दशामि मां कृतैः सा विधवा लङ्का वयं च कुलनन्दन देहकृतोघ्नं गृद्धाणाम् आत्मा लकहेतवे श्रीशुकुवाच स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः पितृमेधविधानेन यदुक्तं साम्परायिकम् ततो ददर्श भगवान् शोकवनिकाश्रमे क्षामां स्वविरहव्याधिं शंसपामूलमास्थिताम् रामप्रियतमां भार्यां दीनां वीक्षान्वकम्पत् आत्मसन्दर्शनाह्लादविकसन्मुखपङ्कजाम् आरोप्यारुभे यानं भ्रातृभ्यां हनुमद्मद्युतु मद्युतः दिभीषणाय भगवान् दत्त्वा रक्षो गणेशतां लङ्कामायुश्च कल्पान्तं ययौचेण व्रत पुरीम् अवकीर्यमाण कुसुमैर्लोकपालार्पितैः उपगीयमानचरितसतहृत्यादिभिर्मुदा गोमूत्र यावकं श्रुत्वा भ्रातरं बलकुलाम्बरं महाकारुणिकोतप्यञ्जटिलं स्थण्डीलेशयं भरतप्राप्तमाकर्णपौराद्य पुरोहितैः पादुकेशिरसीनस्य रामं प्रत्युद्यतो ग्रजम् नन्दे ग्रामाश्वशिविराद्गीता गीतवादे तृणीश्वरैर्ब्रह्मघोषेण च मुहो पठद्भिर्ब्रह्मवादिभिः स्वर्णकक्षपताकाभिर्हैमेश्चिद्रध्वजैरतये सदा स्वैरुक्मसन्नाहैर्भटैपुरटवर्मभिः श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च पादयोऽन्यपतत्प्रेम्णां प्रक्लिन्नहृदये छलः पादुकेनस्य पुरतप्राञ्जलिर्वाष्पलोचनः तमश्लीश्च चिरं दोर्भ्यां स्नापयन् नेत्रजले जलैः रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येर्हसत्तमाः तेभ्यः स्वयं नमश्चक्रे प्रजाभ्यश्च नमस्कृतः धृन्वन्त उत्तरा सङ्गां पतिं वीक्ष्य चिरागं गतम् उत्तराकोशलामाल्यै गिरन्तो नन्द्रतुर्मुदा पादुके भरतो गृह्णाच्चां चामरव्यजनोत्तवे चाम विभीषणसुग्रीवे हुभस्वेक्षं श्वेतश्छत्रं मरुसुतः धनुर्विषङ्गाशत्रुघ्नसीतातीर्थकमण्डलम् अविपतङ्गदः सख्गं हैवं चरमर्क्षराराणनिप पुष्पकस्थोन्मितः स्त्रीभिः स्तूयमानश्च बन्दिभिः दिने जे भगवान् राजन् गृहैश्चन्द्र इपूदितः धातृभिर्नन्दितसोऽपि सो स्वां प्राविशत्पुरीं प्रविश्य राजभवनं गुरुपत्नी स्वमातरं गुरुन्वयस्यावरजान् पूजितप्रत्यपूजयत वेदे हि लक्ष्मणस्यैव वा यथावत् समुपेयतुः पुत्रान् स्वमातरं मातरस्तास्तु त्राणास्तन्वा इवोत्थिताः आरोप्याङ्केऽभिसिञ्चन्त्यो वाष्पेर्घैर्वीजहूषुचः जटानिर्मुच्य विधिवत् कुलवृद्धै समं गुरुः अभ्यसिञ्चदि यथैवेन्द्रं चतुः सिन्धुजलादिभिः एवं कृतशिरः स्नानसुवासाश्रव्यलङ्कृतः स्वलङ्कृतये सुवासोभिर्भ्रातृभिर्भार्यया बभौ अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः प्रजा स्वधर्मनिरता वर्णाश्रं गुणान्विताः युगोपपितृवद्रामो मे निरेपितरं च तमम् त्रेतायां वर्तमानायां कालकृतसमोऽभवत् रामे राजनिधर्मज्ञे सर्वभूतसुखावहे वनानि नद्यो गिरिजे वर्षाणि रिपसिन्धवः सर्वे कामदुघायासन्तजानां भरतर्षभ नाधिव्याजे जराग्लानि दुःखशोकभयक्लमाः मृत्यश्चाणि क्षतां नाशे रामे राजन्यथोक्षते एकपत्नी व्रतधरो राजरसी चरितशुचिः सधर्मं गृहिमे धियं शिक्षयन् स्वयमाचरत् प्रेम्णानुवृत्त्या शीलेन प्रस्रयावनता सते धियाशिया च भावज्ञा भरतु सीता हरन्मनः ते श्रीमद्भागवते महाप्राणैः प्रंशां चेतायां नमस्कन्दे रामचरिते दशमोऽध्याय